ततश्चैन मन्येन शेषा प्राशेर्येण चैतम् पूर्वर्षरप्राश्नन् ज्येष्ठतस्ते प्रजापरिष्यदीत्येन वाह तम् वाहम् नर्वाञ्चन्न वाञ्छन्न प्रत्यञ्चम् बृहस्पतीनाशेषा एष वावो धनः सर्वाङ्गः सर्वपरः सर्वतनोः सर्वाङ्गदेव सर्वपरः सर्वतनोः सम्भवति च देवम् वेद तदर्थैनमन्याभ्याम् श्रोत्राभ्याम् प्राशीर्भ्याभ्याम् चैतम् पूर्वर्षरप्राशम् बहिरोभविष्यसीत्येन वा तम् वाहम् नर्वाञ्चन्न पराहञ्चम् न प्रत्यञ्चम् या वा पृथिवेभ्याम् श्रोत्राभ्याम् ताभ्याः वेदम् प्रादेशम् ताभ्याः वेदमजीगमम् एष वावो दरः तदश्चैनमन्याभ्याः वक्षेभ्याम् प्राचेर्याभ्याम् चैतम् पूर्वशरप्राश्चम् अन्धोभविष्यसीत्ये न माह तम् वाहन्नार्वाञ्चम् न पराञ्चम् न प्रत्यन्तम् सूर्याचन्द्रमदाभ्यः पक्षेभ्यः ताभ्याः वेदम् प्राचेशम् ताभ्याः वे एधवावो धनः सर्वाहङ्गः सर्वपुरः सर्वदनोः सर्वाहङ्गदेव सर्वपरः सर्वतनोः सम्भावम् वेद ततश्चैतमन्येन मुखेरप्राचैर्येण चैतम् पूर्वहर्षरप्राश्च मुखदस्तेः प्रजामर्षीर्तेः नमः तम् वाहम्नार्वाञ्चम् न पराहञ्चम् न प्रत्यञ्चम् ब्रह्मणा मुखे तेनैप्राचीनम् तेनै नीगमम् एषा वो धनः सर्वाङ्गः सर्वपः सर्वतनोः सर्वाङ्गदेव सर्वपरुः सर्वतनोः सम्भवति च देवम् वेद ततश्चैनमन्ययाः जिह्या प्राचीर्ययाः चैतम् जिह्वादेः मनुष्य अदीतेः नमाः कम् वाहन्नार्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् अग्नेर्जिह्जाः तैः रम् प्राशीषम् तैः नवजीगवान् एष भावोः धनः सर्वाहङ्गः सर्वपरः सर्वतनोः सर्वाहङ्ग एव सर्वपरः सर्वतनोः सम्भवति ततश्चैरमन्यैर्दन्तैः प्राचीर्यैश्चैतम् पूर्वर्षरप्राशितम् दन्ताश्चैरत्स्यन्तैर्घे न वाहम् नार्वाञ्चन्न पराञ्चन्न प्रत्यञ्चम् ऋगुभिर्दन्तैः तैलेनम् प्राशेषम् तैलेनव जीगमम् एष भावो दनः सर्वाङ्गः सर्वपरः सर्वधनोः सर्वाहङ्गेव सर्वपरः सर्वतरोः सम्भवति एवम् लेखा ततश्चैरमन्यैः प्राणापाणे प्राचीर्यैश्चैतम् पूर्वविषय प्राश्चन् प्राणापाणास्त्वात्यै नमाः कम् वाहम्नार्वाञ्चन्न पराहञ्चन्नम् न प्रत्यञ्चम्बाणैः दैरेहेन प्राशेषम् धैरेहेनवजीतमम् एष वावोः दनः सर्वाङ्गः सर्वपुरः सर्वतनोः सर्वाङ्गदेव सर्वपुरः सर्वतनोः सम्भवति च देवम् वेद तदश्चैरमन्यैरव्यचयस प्राशीर्येण चैतम् पूर्वर्षय प्राश्नम् राजयक्ष्वस्त्वा हरिष्यतीर्ये न्न पराञ्चन्न प्रत्यञ्चम् अन्तरिक्षेण व्यचरसा तेनैहीनम्राशीरम् तेनै हीनमजीगमम् एष भावोः दनः सर्वाहङ्गः सर्वपुरः सर्वतरोः सर्वाहङ्गदेव सर्वपुरः सर्वतरोः सम्भवति देवम् न्येन पृष्ठेन प्राहीर्येण चैतम्प्राशन्द विद्युत्वाञ्च न पराञ्चम् न प्रत्यञ्चम् दिवाष्ठेन तेन हीनम् प्राहीरम् तेन हीनमजीगमम् एष वावोः धनः सर्वाङ्गः सर्वपसर्वतनोः सर्वाहङ्गदेव सर्वपरः सर्वतरोः सम्भवति गणेवम् मेला गतश्चैरमन्येनो रसा प्राशीर्येण चैदम् पूर्वशय प्राष्टम् कृष्यागराहसिरशीत्यैरमाः रम् वाहम् नर्वाञ्चन्न पराञ्चम् न प्रत्यञ्चम् पृथिव्यो रसा तेनैहीरम् प्राशेषम् तैरैः रमजीयवान् एष वावो दनः सर्वाहङ्गः सर्वपुरुः सर्वतनोः सर्वाहङ्ग एव सर्वपुरुः सर्वतनोः सम्भवति च देवम् वेद ततश्चेन वन्येनोदरेण प्राचीर्येण दयितम् पूर्वर्हप्राष्टम् उदरदारस्त्वा हरिष्यदीर्त्ये न वाहम् नारुवाञ्चन्न पराहञ्चम् न प्रत्यञ्चम् सत्येनोदरेण तेन हीनम् प्राशेषम् तेन हीनमजीयमम् एषामोहोदरः सर्वाङ्गः सर्वपुरः सर्वतनोः सर्वाङ्गरेव सर्वपुरः सर्वतनोः सम्भवरिज एवम् वेदा ततश्चैरमन्येन वस्तिना प्राशीर्येण चैतम् पूर्वर्षरप्राश्नन् अप्सुपरिष्य अशीत्येन म् वाहम्नार्वाञ्चन्न पराहञ्चन्न प्रत्यञ्चम् समुद्रेण वस्त्याः तेनैहीनम् राशेषम् तेनैहीनमजीरवम् एडमावोह दनः सर्वाहङ्गः सर्वपुरः सर्वदनोः सर्वाहङ्गमेव सर्वपरः सर्वदनोः सम्भवति च देवम् रच्चैरवन्याभ्याः पोरुभ्याम् प्राशेयाभ्याम् चैतम् पोर्वर्षयप्राश्चम् ऊरू वरिष्यथ इत्ये नमः तम् वाहन्नार्वाञ्चन्न पराञ्चन्न प्रत्यञ्चम् मित्रारोणयोरुभ्यः ताभ्याः ता वेदम् प्राशेषम् नं ताभ्याः वेदमजेगमम् एष मावो ददः सर्वाहङ्गः सर्वपरः सर्वतनोः सर्वाङ्ग एव सर्वपरः सर्वतनोः सम्भ्रवजदेवम् वेद तदश्चैनमन्याभ्याः वष्टिवद्भ्याम् प्रागेर्याभ्याः चैतम् पूर्वऋषरप्राश्चसीत्ये राहम् वाहन्नार्वाञ्चन्न पराहञ्चन्न प्रत्यञ्चम् प्रष्टो रक्षीवद्भ्याः ताभ्याः मेलम् प्राचीतम् ताभ्याः मेलमजीयवम् एकभावोदः सर्वाहङ्गः सर्वपरः सर्वतनोः सर्वाहङ्गदेव सर्वपरः सर्वतनोः सम्भवति एवम् वेद अदर्शैरमन्याभ्याम् पादाभ्याम् प्राचीत्याभ्याः चैतम् पूर्वऋषरप्राष्टन् बहुजाली भविष्यसीत्ये नम् वाहम् नर्वाञ्चम् न पराहञ्चम् न प्रत्यञ्चम् अश्विनाः पाराभ्या ताभ्याः वेदम् प्राशीषम् ताभ्यः वेदमजीगमम् एष भावो दलः सर्वाहङ्गः सर्वपरः सर्वतनोः सर्वाहङ्ग एव सर्वपरः सर्वतनोः सम्भवति तदश्चैरमन्याभ्याम् प्रपदाभ्याम् प्राशेर्याभ्याम् चैतम् पूर्वषय प्राचन सर्पस्वाहनिष्यदीत्ये नम् वाहन्नार्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् सवितप्रपदाभ्याम् ताभ्याः वेलम् प्राशेषम् ताभ्याः वेलमजीगम एष भावो दलः सर्वाहङ्गः सर्वपरः सर्वतनोः सर्वाहङ्गरेव सर्वपरः सर्वतनोः सम्भवति एवम् वेदा तदस्तेन्याभ्याम् हस्ताभ्याम् राशिर्याभ्याम् चैदम् पूर्वऋषयप्राश्नम् ब्राह्मणम् हरिष्यसीत्ये रमाः तम् मार्वाञ्चम् न पराञ्चम् प्रत्यञ्चम् ऋतस्य हस्ताभ्याम् ताभ्याः वेदम् प्राशेषम् ताभ्याः वेनवजीगमम् एष वामोहो तदः सर्वाहङ्गः सर्वपरः सर्वतमोः सर्वाहङ्गरेव सर्वपरः सर्वतमोऽसम्भवति देवम् वेद तदश्चैरमन्यराः प्रतिष्ठया प्राशीर्ययाः चैतम् पूर्वरशरप्राष्टम् ष्ठानोःसीत्ये रमाः रम् वाहम् नर्वाञ्चन्मपराहम् चन्द्र प्रत्यञ्चम् सतते प्रतिष्ठाया तलिहीनम् प्राशीढम् तलिहीरमजीगवम् एष वावो होदः सर्वाहङ्गः सर्वपरः सर्वतनोः सर्वाहङ्गरेव सर्वपरः सर्वतनोः सम्भवति गलेवम् वेद एतद्वये वृद्धस्य विष्टवै यदोः दनः वर्धणोः को भवति वृद्धस्य विष्टभि सजते यदेवम् वेद एतस्माद्भावोः ददा त्रयस्त्रिंशतम् लोकान् प्रजापतिः तेषाम् प्रज्ञानाः यज्ञमासृजत स एवम् विरुदय उपद्रष्टा भवति प्राणम् रोणद्धि न च प्राणम् रोणद्धि सर्वज्ञानम् निहीयते सर्वज्ञानिम् दीयते पुरैरम् दशः प्राणो जहादि प्राणाय नमोजस्य सर्वमिदम् वशेः यो भूतः सर्वस्यैश्वरो यस्मिन् सर्वम् प्रतिष्ठितम् नमस्ते प्राणखन्धाहाय नमस्ते स्तनयित्रवेः नमस्ते प्राणविद्युते नमस्ते प्राणवर्षते यत्प्राणस्तरयितृणाः भित्कन्दत्योषधीः समीहीयन्ते गर्भाहम् ददतेथोः भगवीर्विदाहयन्ते यत्प्राणवितावागते भित्क्रन्दत्योषधीः सर्वम् ददा प्रमोदते यत् च यदा प्राणोभ्यवर्षे वर्षेण पृथिवीम् महीम् वर्षवस्तत्रमोहोदम् ते महो मयीनोहविष्यति अभिवृष्टा वोटरप्राणेन समादिरन् आयुर्वेण प्रातिहीतरः सर्वः न सुरभीरयः नमस्तेऽस्त्वाजयते नमो अस्तु पराजयते नमस्ते प्राणनिष्ठराधीहीनाचोदते नमः नमस्ते प्राणप्राणरे नमो अस्तु नमः प्रतीचीनः हृदे नमः सर्वस्मै न्यातेः प्राणप्रजातनोर्योधेः प्राणप्रेरसि अरो यध्वेरन्दव तस्य नो हि जीवतेः प्राणप्रजा अनोपस्ते पिता पुत्रमेव प्रिया णो हय सर्वस्यैश्वरो यच्च प्राणतीर्थ प्राणो वृत्त्य प्राणस्तग्मा प्राणम् देवा उपाहासते प्राणो हय सत्यवादिनमुत्तमे लोकादशते प्राणो विराट् प्राणोदेष्टि प्राणम् सर्व उपाहासते प्राणो उपाहा हय सूर्यश्चन्द्रमाः प्राणवाहाः ीनवाष्वान् प्राणमुच्यते यवेह प्राणाहीतोपालो व्रीहिरुच्यते अपाहारदि प्राणादिगुरुढो गर्भे अन्तरा यदा त्वम् प्राणजन्मस्य धाहारते पुनः प्राणमाहुर्मातरिश्वानम् मातोः प्राणमुच्यते प्राणेहभूतम् भव्यम् च प्राणे सर्वं प्रतिष्ठितम् आसर्वणीयाहङ्गिरहेहर्म ओषधप्रजाहायन्ते यदा त्वम् प्राण जन्मसि यदा प्राणो अभ्यवर्षे वर्षेण पृथिवीम् महीम् ओषधडप्रजायन्ते सो याः काश्च विरुधाः यस्तेः प्राणैरम् वेदक्ष्मंश्चाधिप्रतिष्ठितः सर्वे तस्मै बलिम्भरानमुष्मे यथा प्राणभलिहृदस्तभ्यम् सर्वाः प्रजायिमाः एवा तस्मै बलिम्भरान्यस्त्वा शृणवत् शुश्रवः अन्तर्गर्भश्चरति देवता स्वा दे पुराः स भूतो भव्यम् भविष्यत् पिता पुत्रम् पवीवेशासजैभिः वेदम् पादम् नोत्खेदति सिलाद्धम् समुच्छरम् यदम् गतरमुत्खितेन्नैवाद्य स्यान्न रात्रिनाह स्यान्नव्युच्छेत् कदा जना अष्टाचक्रम् वर्तने गणनेऽपितहस्राक्षरम् प्रपुरो निपश्चा अर्धेन विश्वम् पवनम् जानजनश्चार्धम् करतमः यो अस्य विश्वजम् मनजीशे विश्वस्य चेष्टतः अन्ये रुक्तिप्रसम् वने तस्मै प्राण नमास्तुते यो अस्य सर्वजम् मनजीशे सर्वस्य चेष्टतः अरुन्द्रो ब्रह्मण अधीरः प्राणो ऊर्ध्वः सुप्तेषो जागारुतिर्यपद्यते न सप्तमस्य सुप्लेष्वनुशुश्रावय कश्च न प्राणयमावत्पर्यावृतो न वधन्यो भविष्यसि अपाम् गर्भमिव जीवसे प्राणभद्राविद्वणि ब्रह्मचारीष्टांश्च रतिरोदयसी उभे तस्मिन् देवा सम्मानसो भवन्ति थिरीन् दिवम् च साचार्याम् तपसापि पर्ति ब्रह्मचारिणम् पितरोः देवजनाः पृथग्देवाः सुसंयम् सर्वेः गन्धर्वारेण त्रयस्त्रिंशत् त्रिशता षट्सहस्ताः सर्वान् सदेवांस्तपसापि पर्ति आचार्य उपनरेवार ब्रह्मचारिणम् कृणुते गर्भवन्तः सम्भ्रात्रेः उदरे द्रष्टुमभितम् देवाः सवित्रेधिवेद्यावर्तिते योतान्तरिक्षम् सविधाः प्रणाति ब्रह्मचारी सविधा मेखलजाश्रमेण लोकाम् स्तपसा विवर्ति पूर्वो जातो ब्रह्मणो ब्रह्मचारी धर्मम् वसाहारस्तपसोदतिष्ठते तस्माहर्जातम् ब्राह्मणम् ब्रह्म ज्येष्ठम् देवाश्च सर्वे अमृतेः साकम् ब्रह्मचार्येति सविधा समिद्धः कार्ष्टम् वसाहानो दीक्षितो दीर्घश्पश्रुः स सज्जनेः दीपूर्वस्मादुत्तरम् समुद्रम् लोकान् सङ्ग्रह्य भुहोराचरिक्रत ब्रह्मचारी जनयन् ब्रह्मापो लोकम् प्रजापादम् विराजम् गर्भो भूत्वा अमुदस्कजो राजिन्द्रो रभूत्वासो रामस्तदर्ह आचार्यस्तदक्ष ने दिवे उर्वीगम् भीरे पृथिवीम् दिवम् च पे रक्षति तपथा ब्रह्मचारी तस्मिन् देवाः सम्मानसो भवन्ति दिमाम् भूमिम् पृथिवीम् ब्रह्मचारी तेरा तबस्ते चौरार्पीताश्वागम्य पनोंो दिवस निधि ब्राह्मण से कौरक्षित ब्रह्मचारी कलते ब्रह्म विद्वाग्य अन्न पृथिव्याधी पदे मे तयोः श्रृन्ते रश्मयोधी दृढास्ताना तिष्ठति तपथा ब्रह्मचारी परिग्रन्दम् स्तनयम् न रोडशीतिङ्गो बृहच्छेपो रभोगौ जाना ब्रह्मचारीञ्च दिकालोरेत पृथिव्याम् तेन जीवन्ति प्रादिशश्च तः अग्नौ सूर्येः चन्द्रमासिमातरिश्व ब्रह्मचार्या आप्सु समि ीपृथभ्यम् दिता सामाज्यम् पुरुषो वर्षमापाः आचार्योः मृत्युर्वरोणः स्वोषधनपराः जीवोलाः आसन् सत्त्वा नस्तैरिदम् साभृतम् अमाभृतम् क्रीडुते केवलमाचार्योः भूत्वा वरुणो नद्य निश्च प्रजापत ब्रह्मचारे प्रायच्छ स्वान्मित्रो अध्यात्मनः आचार्योः ब्रह्मचारी ब्रह्मचारी प्रजापतिः प्रजापातिर्विराह यदि विराणिन्दो भवद्महे ब्रह्मचर्येण तपसा राजाः राष्ट्रम् विरक्षति आचार्योः ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ब्रह्मचर्येण कन्यादिवाहानम् विन्दते पतिम् अनब्रह्मचर्येण श्वो घासम् देहीषति ब्रह्मचर्येण तपसा देवामृत्युपपाहर्गता इन्द्रोः ब्रह्मचर्येण देवेभ्यः स्वा आराभर ओषधजो भूतभव्यमहोरात्रैव वनस्पतिः स्ते जाता ब्रह्मचारिणः पार्थिवादय्याः पृशवरण्या ग्राम्याश्चाः पक्षिणश्च एते जाता ब्रह्मचारिणः पृथक् सर्वे प्राजापत्या प्राणानात्मसो बिभ्रति तान् सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् देवानाः वेदत्वरिषोतमुणभ्यारूढम् चरति रोचमाणम् तस्माः जातम् राम्भणम् ब्रह्म ज्येष्ठम् देवाश्च सर्वे अमृतेरसागरम् ब्रह्मचारी ब्रह्मभ्राजन्दिभर्ति तस्मिन् देवाधिविश्वे समोताः प्राणापालो जनजन्नात् ज्ञानम् वाचो मनो हृदयम् ब्रह्म मेधा चक्षुश्रोत्तम् यशोः अस्मासु धेक्यन्द्रम् लोहीतमुदरम् कालिकल्पद्ब्रह्मचारीलस्य पृष्ठे तमोः क्लिष्टक्लव्यमाहारः समुद्रे स्रादो बभ्रङ्गरपृथिव्याम् बहुरोचते अग्निम् रोहो वनस्पति दोषधीरुतवीरुधाः इन्द्रम् बृहस्पतिम् सौर्यम् तेनोहामुञ्चम् त्वम् हरः ब्रोमो राजानम् वरुणम् मित्रम् विष्णुमथोभम् अंशम् विवस्वन्तम् ब्रूमस्तेनो मुञ्चन्त्वम् भरदः ब्रोमो देवम् स अर्यवाना वयो देवस्तेनोः मुञ्चन्तम् भरतः अहोरात्रे इदम् प्रोः वर्षोरिजा विश्वानादित्याम् प्रो वस्तेनोः उञ्चन्तम् भरतः वागम् रोपन्यमन्तरिक्षपथो दिशाः आशाच्चः भ्रो वस्तेनोः उञ्चन्त्वम् भरतः ोमो वा देवो मुञ्चतुजमाश्चन्द्रमादिति पार्थी वा दिव्याः पशव आरण्या उदरे मुलाः शकुन्ताल्पक्षिणोः ब्रो वस्तेनोः मुञ्चन्तम् भासः भवा सर्वाविदम् ब्रो वरुद्रम्भनिश्चयः किशोर्यादेषाम् संवित्मदानः सन्तु धराः शिवाः दिवम् नक्षत्राणि भूमिम् यक्षाणि पर्वतान् समुद्रानद्योन्तास्तेनोहन्तम् भरसः सप्तर्षेम् वा इदम् ब्रो मो देवेः प्रजापायन् वितरेण्यमश्रेः ब्रोमस्तेनोह मुञ्चन्तम् भरः ये देवादिविषदोः अन्तरिक्षतश्चे मृषिव्याम् शक्रे श्रितास्तेनोः मुञ्चन्त्वम् भरदः आदित्यारुद्रावसर्वो दि देवासर्वाणः अङ्गीरसोपनेषिणस्तेनोः मुञ्चन्त्वम् भरदः यज्ञम् भोः भो यजमानवृजः सामादिभेषु होत्रा प्रोहमस्तेनोः मुञ्चन्त्वम् भरदः पञ्चराज्यानि विरुधाम् सोमश्रेष्ठानि ब्रोमः गर्भो भङ्गोयसहस्तेनोहुञ्जन्तम् भरः अरायाहम् ब्रो रक्षाहृतत्वाम् पुण्यजलान्त्रेण मृत्योनेकश्रोमस्तेनो मुञ्जन्तम् भरः मृतोन् ब्रो मरुगवतिहीनार्थमृतः जनान् सांस्तेनोः मुञ्चन्तम् भारः एतदेव दक्षिणः पश्चात् प्राञ्च उदयता पुरस्त्राः दत्ता चक्राविश्वे देवास्तमेत्य तेनोः मञ्चन्तम् भारः विश्वाहम् देवानिदम्बोः सत्यसन्धानतावृथाः दा। विश्वाः व्यपत्नीभिः भिसह तेनोः सर्वाहम् देवानिदम् रो वः सत्यसम् धारणावृथाः सर्वाः व्यक्पत्नीः व्यःसहरेणो मुञ्चन्तम् भारः भूतम् प्रो मम भूतानाः मुदयो भयी भूतानि सर्वाः सङ्गत्यरेणो मुञ्चन्तम् भारः या देवीः पञ्चप्रतिशोदयदेवाग्शत्र स्तेनः सन्त सदाः शिवाः यन्मातरी क्रीतमूर्तम् वेदभेषजम् तदिन्द्रो अप्सुप्रावेणत्रालोहो दत्तभेषजम् उच्छिष्टे नवरूपोच्छिष्टे लोकाहीतः उच्छिष्ट इन्द्रश्चाग्निष्ठ विश्ववन्तः समाहितम् उच्छिष्टेद्यावाह पृथिवी विश्वम् भूतम् समाहीतम् आपसमुद्रमुच्छिष्टे चन्द्रभावादाहीतः सन्मुच्छिष्टे रतम् स्तोभो वृत्तिर्वाजप्रजापतिः लोक्यावुच्छिष्टायत्रापश्च विश्वेर्मयि दृढोदृम्भस्थिरोन्या ब्रह्म विश्वसज्योदष लाभीमिव सर्वतश्चक्रमुच्छष्टे देवताः श्रः रक्सा वेदुरुच्छ उद्गीतप्रस्तोतम् स्तुतम् इङ्कारमुच्छष्टेश्वरः साम् महावेदिष्टम् मलि ऐन्द्राग्म् पावमानम् महानाहम् मेर्म्रतम् उच्छिष्टे यज्ञस्याङ्गान्यन्तर्यभ्रा राजसोऽयम् वाजपेयमज्ञष्टोमस्तदध्वरः अर्काश्वमेधाष्टे देववर्ह्यज्ञाधेन मधो दीक्षाका वप्रश्छन्दसा उत्सन्ना यज्ञाः सत्रान्यच्छिष्टेधिसमाहीताः अग्निहोत्रम् च विष्कालकारो प्रदन्तवाः रक्षेदेष्टम् पोर्तम् चोच्छिष्टेऽधिसमाहिताः एकरात्र द्विरात्रः सद्यक्ेष्वक्लेरुक्षा पोतम् विहितमुच्छिष्टे यज्ञस्याणोभित्यया चतुरात्रः पञ्चरात्र षड्रात्रश्चोभयः सः कोणै सप्तरात्र स्वोच्छिष्टा यज्ञे सर्वे ये यज्ञामृते हिताः घनमिचिच सांहादिविष्टे द्वादाजय स्वर्दात सहािष्टे प्रत्यवा सुद्राचिष्टे धीषा आसो भारत होंत्रेत उपहरम शो वन चिज्ञुहा विश्विष्ट जिता पिता जुरछिष पौत्र पिता मह सी विश्वभूम्याद विदंसत्यन्तपोः राष्ट्रम् शमो धर्मश्च कर्मजा गोदम्भविष्यदच्छिष्टे वीर्यम् लक्ष्मीर्मलम् बलेः समृद्धिरो जागो दिक्षत्रम् राष्ट्रम् षडुर्व्याः संवत्सरोद्युच्छिष्टैडाः प्रैषाग्राः हरिः चतुर्होताराप्रियश्चातुर्मास्यानि नीविदाः वृचिष्टे योत्र पशुबंधा सदृशाया अर्धमाश्च मसाशा सह वृचिश्तेनयत्रुश्मी शर्करास्यकोषध मेल अभ्राणी विद्युत वर्ष मुचेधता ्या्यादु अद्यािषे भू निष्ठाता हिता ज प्राणेन यश्य रिचक्षुषा उच्छिष्टाग्ञे सर्व दिव्य देवादी विश्रुताछंद पुराणू च्छिष्टा जज्ञिरे सर्वे दिविदेवादिविश्रुताः प्राणापालो चक्षुषोश्चया उच्छिष्टा जज्ञिरे सर्वे दिवि देवादिविश्रुताः आनन्दमोदाः प्रमुदो भीमोदयमुदश्च ये उच्छिष्टा जज्ञिरे सर्वे दिवि देवादिविश्रुताः देवा, मनुष्या गन्धर्वाप्सारे दे। धर्मे दिविदेवादिविश्रदाः अन्यमा वहत्सङ्कल्पस्य गृहादधि कादन्य्याः केव्येष्टवनो का भव तपश्चैवास्ताम् कर्म यान्तर्म न्यस्ते वरा ब्रह्म ज्येष्ठवरो तदारायम् तदेवा देवेभ्यः पुरा यो देवान् विद्या प्रत्यक्षंस वा अद्य महद्वादे प्राणावानो चक्षुः श्रोत्रवक्षीतिश्च क्षितिक्षया ज्ञानो दानो वाङ्मनस्ते वा आपो अजाहता बृहस्पतिः इन्द्राङ्गी अश्विनाथैः कन्दे ज्येष्ठमुपाहासदा प्रभश्रीवास्ताम् कर्म जान्त हत्याे कर्मणस्तत्ते ज्येष्ठमुपाहासदा एतादे पूर्वा यावद्धातरे निर्णेतुः यो वेताम् विद्यान्नामधासम्येत पुराणवित इन्द्रः कुतः सोमक्तुतोः अग्निराजायत कुतस्पष्टा समभवत्मतोः धाताजाहायत इन्द्रादिन्द्रः स्वोः अग्निरग्निराजायत त्वष्टायज्ञे त्वष्टुर्धातुर्धाता जहायत एता सन्दश जाता पुरा पुत्रेभ्यो लोकम् दत्त्वा कस्मिंस्ते लोकाभासते यदा केशानस्थिस्नाव मांसम् मज्जानमाभारत शरीरम् कृत्वापादवत्क्रम् लोकमनुप्रावीशत् कुतः केषाम् कुत स्नाव कुतोऽस्थे आभारत अङ्गापर्वाणि मज्जानम् को वाम् सम् कुदाभारत संसितो नाम ते दे समभारन सर्वं समभारन् सर्वम् संसिच्च मद्यम् देवाः पुरुषमावेशन् पूर्ववादावष्टिवन्तौ शिरोहस्तावधोमुखम् पृष्ठेर्मद्येः पार्श्वे कस्तत्समदधादृशीः शिरोहस्तावधोमुखम् जिह्वालम् देवाश्च जा प्रावृत्य सर्वम् तत्सन्धासमादथात्मही यत्कच्छरीयमस यत्सम्भजा सम्भीतम् महद येनेतमद्यलोचते गोमास्मिन् वर्णय सर्वे देवा उपाहारिक्षम् तदा जानात्मधो सती यीयावशस्य याजायाथास्मिन् वर्णयमाभारत यदात्मष्टाप्यतरेण पिता गृहणम् गत्वा मध्यम् देवाः पुरोषमावेशन् स्वप्रोवेदम् देयम् निर्वेदष्वात्माने नाम देवताः जलाखालत्यम् बालित्यम् शरीः नमनुप्रावेशन् शेयम् दुष्कृतम् वेधिनम् कर्त्यम् यज्ञायधाः बृहत् परम् चक्षत्रभोजश्च शरीः नवनुप्रावेशन् भोदिश्च वा भूतिश्च रादरोरादश्चयाः क्षुधश्च सर्वास्तृष्णाश्च शरीरमनुप्रावेशन् निन्दाश्च वा अनिन्दाश्च यच्छहन्ते दिने च शरीरम् श्रद्धा दक्षिणा श्रद्धा चानुप्रावेशन् विद्याश्च वा अविद्याश्च यच्छान्यदोपदेश्यम् शरीरम् ब्रह्मप्रावेशरजः सामाथो यजोः आनन्दामोदाः प्रमुदो भीमोदयमुदश्च ये असो ननिष्टाः नृत्रादि शरीः रमनुप्रावेशम् आनामाश्च प्रलापामाष्टाः भीरापलपश्च ये शैः सर्वे प्रावेशम् नायुजः प्रजोयिदाः प्राणावानौ चक्षुषो क्रमक्षितिश्चक्षितिश्च या यानो दानौ वाङ्मनः शरीरेणतलीहीयन्ते आशिषश्च प्राशिदश्च संशिडो विशिदश्च याः इत्तानि सर्वे सङ्कल्पाश्चरीरमनप्रादेशन् आश्नेश्च आस्तेर्येश्च त्वरणा क्षेपणाश्च याः अवस्ताभिः भत्सादरम् अस्ति कृत्वा अस्ति वेदः कृत्वा ज्यम् देवापुरुषमावेशन् या पोयाश्च देवताया विराग् ब्रह्मणा सह शरीरम् सूर्यश्चक्षुर्वादः प्राणम् पुरुषस्य विभे जिरे अथाश्चेतरमात्मानम् देवाः प्रायच्छन्नग्ननेः तस्माद्विन्नान् पुरुषभिदम् ब्रह्मे मन्यते सर्वा यस्मिन् देवता गावोः गोष्ठ इवसते प्रणाण प्रमाणेन मेधा विश्वम् विगच्छति अदयेकैरगच्छत्य गच्छति हैकेन अप्स्वस्ते मासु वृद्धा तु शरीः रवम् तराहिताम् तस्मिञ्च वाध्यन्तरा तस्माच्छ वाध्यच्छते देवाहवो या इष बोधम् वदाम् वीर्याणि वशीन् परशो च जघृति सर्वम् तदर्बुदे त्वममित्रे ज्योतिषे गुरुश्च प्रदर्शय उत्तिष्ठत संनश्यत्वम् मित्रा देवजनायूजाम् संद्रष्टा गुत्रा वः सन्ति यानो मित्राण्यर्बुदे उत्तिष्ठत मानभेधा मालसम्दाभ्याः अमित्राणाम् सेनाः अभिषत्रमर्बुदे अर्गोदिर्ना मयो देव ईशानश्च न्यर्बुधिः याभ्याः मन्तरिक्षमावृतमिजम् च पृथिवीमही ताभ्यामिन्द्रवेदिभ्यामहम् निजमन् वेदिसेनष्ठोदेशेन सह भञ्जन्नमित्राहाणाम् नां सेनाहम् भोगेभिः परीमारया सप्तजातान्यद्बुद उदानाहम् समेक्षयन् ते विष्टार्जे कृते सर्वैरुत्तिष्ठ प्रतिघ्राणाश्रुमुखीक्रोधकन्ये चक्रौषदो विकेशी पुरुषे हरे अद्बुदेतव सङ्करिषन्ति करो कर्म पुत्रमिच्छन्तीतमास्त्वान्रदिते अर्बुदेतव अयिक्लवाजादत्रिणाः ध्वाङ्क्षाश्च कुलयस्त्रप्यम् पवित्रे रुदपेक्षयम् रजिते अर्बुदेतव अतो सर्वम् स्वापदम् अक्षीतादृप्यदीः पौरुषे नेधिकुलपेरधिते अर्बुदेतव आगृह्णीहितम् सम्मृहृतम् प्राणापानान्यर्बुदेभाषाघोषाश्रय्यम् पवित्रेणदपेक्षयम् रदिते अर्बुदेतव उर्गे वय संयीजन्ताम् भ्रियामित्राम् संसृज उरुग्राहैर्वा पङ्कैर्विद्यामित्रान्यर्बुदे मुह्याम् तेषाम् बाहवश्चित्रा कूतम् च लग्धरी मयिषामुच्चैते अद्बुदे तव प्रतिघ्नाः सन्धावन्तोरः पटोराः घ्नाः अनारिणीर्विकेष्योरुद्याः पुरुषे हते रजिते अर्बुजे तव सम्वदे अप्सरस्वरूपाकृतार्बोदे अन्तःपात्रेहती मृषाम् दुर्निहितैषिणीः सर्वास्तार्बुदय त्वममित्रेभ्यो दृशे कोरोंश्च प्रदर्शय खडूरे सङ्के माम् खर्वीतान् कर्मवासिनीः यगोदारान्तर्हीता गन्धर्वाप्सारदश्चे सर्पादीतरजनालक्षांसी चतुर्दुष्काञ्चावः कुम्भमुष्काम्भ्यसारेतोभ्यराः उद्वेतमद्बुरे मित्राः नामोऽस्ति जयां शामित्राम् जयतामिन्द्रमेदिनौ क्षम् होतो मित्रोऽहम्यर्बुदे अग्निर्माधुपधिकारयन्ते जयन्तु सेनया तया बुधे प्रणुत्तारामिन्द्रोहन्तु वरम् वरम् अमित्राणाम् सदेव जन्माहमोदिलक्षुकन्दृदान्योद्भप्राणबुदी चौष्टकाश्च परो वर्तताममित्रान्मोदमित्रिणः ये च धीराने चाधीरान् चाधी चोधिराश्चे च तु परातो वस्ताभिवादिनः सर्वांस्तादेभ्यो दृशे गोरोदारांश्च प्रदर्शना अर्बोदिष्ट त्रिषन्धिष्ठामित्रान्ना विविध्यरा यथैः रामिन्द्रमित्राः वसदीपते मित्राणाम् शास्त्रशः वनस्पतेःस्पत्यानोषधीतुरुधाः गन्धर्वात्सरसः सर्वान् देवान् पुण्यजरान् पित्रेर् सर्वांस्ताम् अद्भुते त्वमित्रेर्भ्यो धिषेकोरोदानांश्च प्रदर्श ईशाम् नोः मरुतोः देवादित्यो ब्रह्म वृहस्पतिः येषाम् महिन्द्रश्चाग्निश्चाता मित्र प्रजापदिः येषाम् वर्षायश्च कुलमित्रेणुरे तव तेषाम् सर्वे कामीशात्रिष्ठम् मित्रा देव जलायोजम् इमम्बरम् रामम् सञ्चित्य यथा लोकम्